अथ द्विषष्टितमः सर्गः स तु निद्रा मदसमाकुलः राजमार्गम् श्रियाजुष्टम् ययौ विपुलविक्रमः राक्षसानाम् सहस्रैश्च वृतः परमदुर्जयः गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ स ददर्श विपुलम् रम्यम् राक्षसेन्द्र निवेशनम् सतत्तदा सूर्य इवाभ्रजालम् प्रविश्य रक्षोऽधिपतेर्निवेशनम् दर्श दूरेऽग्रजमासनस्थम् स्वयम् भुवम् शक्र इवासनस्थम् भ्रातुः स भवनम् गच्छन् रक्षो गणसमन्वितः कुम्भकर्णः पदन्यासैरकम्पयत मेदिनी सोऽभिगम्यगृहम् भ्रातुः कक्ष्यामभिविगाह्य च ददर्शोद्विग्नमासीनम् विमाने पुष्पके गुरुम् अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् तूर्णमुत्थाय सम्भ्रष्टः सन्निकर्षमुपानयत् अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः भ्रातुर्ववन्दे चरणौ किम् कृत्यमिति चाब्रवीत् उत्पत्त्यचैनम् मुदितो रावणः परिशस्वजे सभ्रात्रासम् परिष्वक्तो यथावच्चाभिनन्दितः कुम्भकर्णः शुभम् दिव्यम् प्रतिपेदेवरासनम् स तदासनमाश्रित्य कुम्भकर्णो महाबलः संरक्तनयनः क्रोधाद् रावणम् वाक्यमब्रवीत् राजन् प्रबोधितः शंसकस्माद्भयम् तेऽत्र को प्रेतो भविष्यति भ्रातरम् रावणः क्रुद्धम् कुम्भकर्णमवस्थितम् रोषेण परिवृत्ताभ्याम् नेत्राभ्याम् वाक्यमब्रवीत् अद्य तेषु महान् कालः शयानस्य महाबला सुषुप्तस्त्वम् न मम रामकृतम् भयम् एष दाशरथिः श्रीमान् सुग्रीवसहितो बली समुद्रम् लङ्घयित्वा तु मूलम् नः परिकृन्तति हन्तपश्य स्वलङ्कायाम् वनान्युपवनानि च सेतुना सुखमागत्य वानरैकार्णवम् कृतम् ये राक्षसा मुख्यतमाहतास्ते वानरैर्युधि वानराणाम् क्षयम् युद्धे न पश्यामि कथञ्चन न वानरा युद्धे जितपूर्वाः कदाचन तदेतद्भयमुत्पन्नम् त्राय स्वेह महाबला नाशयत्वमिमानद्य बोधितो भवान् सर्वक्षपितकोशम् च सत्त्वमभ्युपपद्य माम् लङ्काम् बालवृद्धावशेषिताम् भ्रातुरर्थे महाबाहो कुरु मयैवम् नोक्त पूर्वो हि भ्राता त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे देवासुरेषु युद्धेषु बहुशोराक्षसर्षभा त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरायुधि तदेतत्सर्वमातिष्ठवीर्यम् भीमपराक्रमा न हि ते सर्वभूतेषु दृश्यते सदृशो कुरुष्व मे प्रियहितमेतदुत्तमम् यथा प्रियम् प्रियरणबान्धव प्रिया, प्रिया, प्रिया। स्वतेजसा व्यथय सपत्नवाहिनीम् शरद्गणम् पवन महान् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे द्विषष्टितमः